कुमारसंभवं सर्गम् ट्वेल् अध प्रभेदे त्रिदशैरशेषैक्रूरा सुरोपप्लवदुःखितात्मा पुलोमपुत्री दयितोऽन्धकारिं पत्रीव तृष्णातुरितः पयोदम् तृप्तारि सन्द्रासखिलीकृतात्स कथं चिदम्भोदविहारमार्गाद अवाद ताराभिगिरिं गिरीश गौरी पदन्यास विशुद्धमिन्द्रः सङ्क्रन्दनस्यन्तनदोऽवतीर्य मेघात्मनो मादलिदत्तहस्तः पिनाकिनोद्धालयमुच्चचाल शुचौ पिपासा कुलितो यथाम्भः इतस्तदोद्धप्रतिबिम्बभाजं विलोकमानस्पडिकाद्रिभूमौ आत्मानमप्येकमनेकधासव्रजन् विभोरास्पदमाससाद विचित्र चञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतादिचण्डं स नन्दिनाधिष्ठिदमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ततः स कक्षाहिदहेमदण्डो नन्दीसुरेन्द्रं प्रतिपद्य सद्यः प्रतोषयामास सुगौरवेण गत्वा शशंसस्वयमीश्वरस्य भ्रू संज्ञयानेन कृदाभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण प्रवेशयामास सुरैः पुरोगसमं स सदनं सदस्य सचण्डिभृङ्गिप्रमुखैर्गरिष्ठैर्गणैरनेकैर्विविधस्वरूपैः अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रशिवमालुलोके कपर्दमुद्बद्धमहीनमूर्ध रत्नां शुभिर्भासुरमुल्लसद्भिः दधानमुच्चैस्तरमिद्धधादोः सुमेरुशृङ्गस्य समत्वमाप्तं बिभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जडाजूडतडं भजन्तीं गौरीम् तदुत्सङ्गजुषं हसन्दीमिवस्वफेनै शरदभ्रशुभ्रैः गङ्गातरङ्गप्रतिबिम्बितैस्वैर्बहुभवन्तं शिरसा सुधांशुं चलन्मरीचिप्रचयैस्तुषार गौरैर्हिमद्योदितमुद्वहन्तं भालस्तले लोचनमेधमानधामाधरीभूत रवीन्दु नेत्रं युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् महार्हरत्नाञ्जितयोरुदारं स्फुरत्प्रभा मण्डलयोः समन्दाद कर्णस्थिताभ्यां उपासिदं कुण्डलयोश्चलेन स्वबद्धया कण्डिक एव नीलमाणिक्यमय्या कुदुक गौरिया नीलश्क परस्फुद्या का महत्या सुविराज कालार्दिताजोभि परीपांडुरंगं महन्मे भाजन मुदाभ्र प्रालेय शैलश्रिय प्रालेयशैलश्रियमुद्वहन्दम् पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाचापि निषेध्यमाणां नरास्ति खण्डाभरणं रणमूलं त्रिशूलं कलयन्दमुच्चैः पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्धिम् उद्गीतवेदां मुकुडेन्दुवर्षत्सुधा भरौकाप्लवलब्धसंज्ञा सलीलमङ्गस्थितया गिरीन्द्रपुत्र्या न वाष्टापदवल्लिभासा विराजमानं शरदभ्रखण्डं परिस्फुरन्त्या चिररोचिषेव दृप्तान्धकप्राणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् करेण गृह्णान्द म गृह्यमन्यै पुरा स्मरप्लोषणकेलिकारं भद्रासनं काञ्चनपादपीठं महार्हमाणिक्य विभङ्गिचित्रम् अधिष्ठितं चन्द्रमरीजि गौरैरुद्वीज्यमानम् समरैर्गणाभ्यां शस्त्रास्त्रविद्याभ्यसनैकशक्ते सविस्मयैरेत्य गणैः सुदृष्टे नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृश्यं कुमारे तथाविधं शैल सुताधिनाधं पुलोमपुत्री दयितो निरीक्ष्य आसीक्षणं क्षोभपरोऽनुकस्य मनो न हि क्षुभ्यदि धामधाम्नि विकरस्वराम्भोजवनश्रिया तं दृश्यं सहस्रेण निरीक्षमाणः रोमालिभिस्वर्गपतिर्बभाषे पुष्पोत्कराकिर्ण इवाम्रशाखी दृष्ट्वा सहस्रेण दृश्यान् महेशमभूत्कृदार्थोदि तरां महेन्द्रः सर्वाङ्गजादं तदधो विरूपमिव प्रिया कोपकरं कनकाद्रिसारं पुरंतरप्रेक्ष्य प्रेक्ष्य धृतास्त्रशस्त्रं महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा श्रीनील कण्ठद्युपधिपुरोस्ति त्वयि प्रणामावसरं प्रगीच्छन् सहस्रनेत्रेत्र भवत्रिनेत्र दृष्ट्या प्रसाद महेश यदि प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभिहेमनेत्रं प्रसादपात्रम् पुरदो भविष्णुरधस्मरारादिमुवाचवाचं पुरा त्रिलोक सुरशङ्खसेव्यं त्रिलोकसेव्यस्त्रिपुरा सुरारिः प्रीत्या सुधासारनिधारिणेव तदोनु जग्राह विलोकनेन किरीडकोटिच्युदपारिजादपुष्पोत्करेणानमिदेन मूर्ध्ना स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनामदेवः अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः स भक्र्या नमस्कृत्य कृतार्थतायाः पवित्रं परमं बभूव सुभक्तिभाजामधिपादपीढं प्रान्तक्षिदिं नम्रतरैः शिरोभिः तदः प्रणेमुः पुरदो गणानां गणासुराणां क्रमदपुरारिम् गणोपनीदे प्रभुनोप हेममये पुरस्ताद प्रापोपविश्य प्रमुदं सुरेन्द्र प्रभुप्रसादोहि हि मुदेन कस्य क्रमेण चान्येऽपि विलोकनेन संभा सस्दमीश उपस्तोष्माता दृगोचरे तुरा सग्रधा दलवैरीख्यार्गा्रचेता कृताञ्जलीकान् सुरराभिसूतान् ध्वस्तश्रियश्रान्तमुखानवेक्ष्य अहो बदानन्दपराक्रमाणां दिवौकसो वीरवरायुधानां हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधदे मुखानि सस्वर्गपरचुदाख्यम स्वुण्यराश सुमे चिन्ह चिरोम न दु यूये ते निजाधिपत पैत्यजध दिवकसो दृहम विहाय मनुष्य साधारणता योऽयं कुधकारणतश्चरध्वं महीतडे मानभृतो महान्तः अनन्यसाधारणसिद्धमुच्चैस्तद्दैवदम् धाम कस्मादकस्मा कस्मादकस्मान्निरगद्भवद्भिश्चिरार्जितम् पुण्यमिवापचाराद दिवौकसो वो हृदयस्य कस्मात् तया विधं धैर्यमहार्यमार्याः अगाधगाधस्य जलाशयस्य ग्रीष्मादितापादिवशादि वाम्भः सुरासुराधीश पुरःसराणां समीयुषां वस्सममादुराणां तद्भृदलोकत्रयजित्वरात् किं महासुरात्तारकदो विरुद्धम् पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलम्भविष्णुः दावानलप्लोषविपक्तिमन्यो महाम्बुदा किं हरदेवनानाम् इदीरिदे मन्मथमर्दनेन सुरा सुरेन्द्रप्रमुखा मुखेषु सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुश्रियं सत्वरमाश्वसन्तः तदो गिरीशस्य गिरां विरामे लब्धे वसरे सुरेन्द्रः भवन्दिवाचो वसरे प्रयुक्ता ध्रुवं भलाविष्टमहोदयाय ज्ञानप्रदीपेन तमोपहेन विनश्वरेणा स्खलितप्रभेण भूदम्भवद्भावि च यच्च किञ्चित् सर्वज्ञ सर्वं तव गोचरं तत् दुर्वारदोरुद्यमदुस्सहेन यत्तारकेणामरकस्मरेण तदि सदामाप्तवदा निरस्ता वयं दिवोमि वद किं न वेत्सि विधेरमोखं स वरप्रसादमासाद्य सद्य स्त्रीजगज्जिगीषुः सुरानशेषानखकप्रमुख्या दोर्दण्डचण्डो मनुते तृणाय स्तुत्या पुरास्माभिरुपासितेन पितामखेनेदि निरूपितं नः सेनापति सं यदि दैत्यमेदं पुरस्मराराधिसुदो निहन्ति अहो तदोनन्तरमद्यया वत्सु दुःसहां तस्य परा भवार्तिं विषेहिरेहन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौ कसौमी निदाखधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनां सुनन्दनं नन्दनमात्मनो नः स्वयमादिशत्वम् त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खायमहासुरं तम् अस्माकमेषां पुरदो भवन् स दुःखापहारं युधियो विधत्ते महाकवेनाथ तवस्य सूनोऽश त्रैशिधै कृतशिरोद्धराणां महासुराणां रमणी विलोपैर्दिशो दशैता मुखरी भवन्दू महारणक्षोणि पशुपहारी कृते सुरे तत्र तवात्मजेन बिन्धिस्थितानाम् सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः इद्धं सुरेन्द्रे वदति स्मरारि सुरारि दुश्चेष्टितजादरोषः कृतानु कम्पस्त्रिदशेषु तेषु भूयोऽपि भूदाधिपतिर्बभाषे अहो अहो देवगणा सुरेन्द्रमुख्याशृणुध्वं वचनं ममैते विचेष्टदे शङ्कर एष देवकार्याय सज्जो भवतां सुदाद्यैः पुरामयाकारी कारिगिरीन्द्रपुत्र्या प्रतिग्रहोऽयं नियतात्मनापि तत्रैष हे तद्भवेन वीरेण यद्वध्यत एष शत्रुः अत्रोपपन्नं तदमीनियुज्य कुमारमेनं प्रदनापदित्वे निघ्नन्दुशत्रुं सुरलोकमेष भुनक्तुभूयोऽपि सुरै सहेन्द्रः इत्युदीर्य भगवां स्तमात्मजं महोत्सवोत्सुकं नन्दनं हि जहिदेवविद्विषं निजगाद निजगादशङ्करः शासनं पशुपतेः सकुमारस्वीचकार शिरसावनतेन सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः असुरयुद्धविधौ विबुधेश्वरे पशुपदौ वदती तवात्मजम् गिरिजया मुमुदे सुदविक्रमे सदिननन्ददि का खलु वीरसूः वीरं प्रौढं वीरं कुमारमुमापदेर्बलवदमरारादिस्त्रीणां दृगञ्जनभञ्जनम् जगदभयदं सद्य प्राप्य प्रमोद परो भवद्ध्रुवमभिमदे पूर्णे को वा मुदा नहि यदि द्वादश सर्गः ॐ